षष्टितमः सर्गः ततः कृतोदकम् स्नातम् तम् गृध्रम् हरियूथपाः उपविष्टा गिरौ रम्ये परिवार्य समन्ततः तमङ्गदमुपासीनम् तैः सर्वैर्हरिभिर्वृतम् जनित प्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत् कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम तथ्यम् सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुराणघ सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः लब्धसञ्ज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव वीक्षमाणो दिशः सर्वानाभिजानामि किञ्चन ततस्तु सागराञ्छैला नदीः सर्वाः वनानि च प्रदेशांश्च निरीक्ष्यमतिरागता हृष्टपक्षिगणाकीर्णः कन्दरोदर कूटवान् दक्षिणस्योदधे स्तीरे विन्ध्योऽयमिति निश्चितः आसीच्छात्राश्रमम् पुण्यम् सुरैरपि सुपूजितम् ऋषर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् अष्टौ वर्षसहस्राणि तेनास्मिन्नृषणा गिरौ वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः तीक्ष्णदर्भाम् वसुमतीम् दुःखेन पुनरागतः तमृशम् द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो अभ्यागतो जटायुषा मया चैव बहुशोधिगतो हि सः तस्याश्रमपदाभ्यासे वपुर्वाता सुगम्भिनः वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते उपेत्यचाश्रमम् पुण्यम् वृक्षमूलमुपाश्रितः द्रष्टुकामः प्रतीक्षे च भगवन्तम् निशाकरम् अथ पश्यामि दूरस्थमृषिम् ज्वलित तेजसम् तमृक्षाश्रमरा व्याघ्रा सिंहानासरी परिवार्योपगच्छन्ति दातारम् प्राणिनो यथा ततः प्राप्तमृषञ्यात्वा तानि सत्त्वानि वैयुः प्रविष्टे राजनि यथा सर्वम् सामात्यकम् बलम् ऋषिस्तु दृष्ट्वा माम् तुष्टः पुनः मुहूर्तमात्रान् निर्गम्य ततः कार्यमपृच्छत सौम्यवैकल्यताम् दृष्ट्वा रोम्णान्तेनावगम्यते अग्निदग्धा विमौ पक्षौ प्राणाश्चापि शरीरके गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे गृध्राणाम् चैव राजानौ भ्रातरौ कामरूपिणौ ज्येष्ठो वितस्त्वम् सम्पाते जटायुरनुजस्तव मानुषम् रूपमास्थाय गृह्णीताम् चरणौ मम किम् ते व्याधिसमुत्थानम् कथम् दण्डो वायं धृतः केन सर्वमाख्या हि पृच्छतः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्टितमः सर्गः